अथाष्टादशः सर्गः तान्तु शूर्पणखाम् रामः कामपाशावपाशिता स्वेच्छया श्लक्ष्मया वाचास्मितपूर्वमथा कृतदारोऽस्मि भवति भार्येयम् दयिता मम त्वद्विधानाम् तु नारीणाम् सुदुःखास सपत्नता अनुजस्त्वेष प्रियदर्शनः श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् अपूर्वी भार्यया चार्थी भर्ता रूपस्यास्य भविष्यति एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम अस मेरुमर्कप्रभायथा इति रामेण सा राक्षसी काममोहिता विसृज्य सहसा ततो लक्ष्मणमब्रवीत् अस्य रूपस्य ते युक्ता भार्याहम्बरवर्णिनी मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि एवमुक्तस्तु सौमित्री राक्षस्यावाक्यकोविदः ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तमब्रवीत् कथम् दासस्य मे भार्या भवितुमिच्छसि सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि समृद्धार्थस्य सिद्धार्थामुदितामलवर्णिनी आर्यस्य त्वम् विशालाक्षि भार्या भवयवीयसी एताम् विरूपामसतीम् करालाम् निर्नतोदरीम् भार्याम् वृद्धाम् परित्यज्य त्वामेवैष भजिष्यति को हि रूपमिदम् श्रेष्ठम् सन्त्यज्य मानुषीषु वरारोहे कुर्याद्भावम् विचक्षणः इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी मन्यते तद्वचः सत्यम् परिहासा विचक्षणा सारामं रामम् मपविष्टं परन्तपम् सीतया सह दुर्धर्षमब्रवीत् काममोहिता इमाम् विरूपा वसतीम् करालाम् निर्णतोदरीम् वृद्धाम् भार्यामवष्टभ्यनमाम् त्वम् बहु मन्यसे अद्ये माम् भक्षयिष्यामि पश्यतस्तव मानुषी त्वया सहचरिष्यामि निःसपत्ना यथा सुखम् इत्युक्त्वा मृगशाबाक्षीमलातसदृशे क्षणा अभ्यगच्छत्सु सङ्क्रुद्धा महोल्कारोहिणीमिव ताम् मृत्युपाशप्रतिमापतन्तीम् महाबलः विगृह्य रामः क्वपितस्ततो लक्ष्मणमब्रवीत् क्रूरैरनार्यैः सौमित्रे परिहासः कथञ्चन न कार्यः पश्य वै देहीम् कथञ्चित् सौम्य जीवतीम् इमाम् विरूपामसती मतिमत्ताम् महोदरीम् राक्षसीम् पुरुषव्याघ्रविरूपयितुमर्हसि इत्युक्तो उद्धृत्य खड्गम् महाबलः निकृत्तकर्णनासा तु विस्वरम् सा विनद्य च यथा गतम् प्रदुद्रावघोराशूर्पणखावनम् सा विरूपा महाघोरा राक्षसी शोणितोक्षिता न नादविविधान्नादान्यथा प्रावृषितो यदः प्रगृह्य बाहो गर्जन्ती प्रविवेश महावनम् ततस्तु साराक्षस सङ्घ विरूपिता उपेत्यतम् भ्रातरमुग्रतेज सम्पपात भूमौ गगनाद्यथा शनिः ततः स विरूपणम् चात्मनि शोणितोक्षिता शशंस सर्वम् भगिनीखरस्य सा अरण्यकाण्डे अष्टादशः